श्रीमद्भागवत् महापुराणं दशं स्कन्ध सप्तचत्वारिंशोऽध्यायः <laughs> यत्त्वहं भवं दूरे वरते प्रियो दिशां मनसः सन्निकर्षार्थं वदनुध्यानकाम्ययाम् यथा चरे प्रेष्ठे मन आवेश्य वर्तते स्त्रीणां च न तथा चेत् सन्निकृष्टेक्षिगोचरे नै आवेशमन कृष्णं विमुक्ताशेषमिदीयन् अनुस्मरन्त्यो मां नित्यम् अचिरान् मामुपेशत या मया क्रीडता रात्र्याम् वनेऽस्मिन् दलब्धराशा कल्याण्यो माचिन्तया ते तेयं देयम् आदिष्टम् आकर्णवृजयोषितः तावुचोरुद्धमम् प्रीता तत्सन्देशागतस्मृतिः गोव्यौचुः दृष्ट्याहितो हत कंसो यदूनाम् सानुगोग्रे दृष्टाब्दैर्लब्धसर्वार्थे कुशल्यास्ये चितोधताम् कच्चिद्गदाग्रज सौम्य करोति पुरियोषिताम् प्रीतिम् न सिग्धसमृढम् हासोदारे च नार्चितः अपि स्मृतिना साधो गोविन्दप्रस्तुते क्वचित् गोष्ठीमध्ये पुरस्त्रीणां ग्राम्या स्वैरक्तान्तरे ता किं दृशा स्मृतियासि तदा प्रियाभि वृन्दावने कुमुदकुन्द शशाङ्करं मे प्रेमे कुणच्चरणनूपुररासगोष्ठस्माभिरीडितमनोज्ञकथकदाचित् अभ्ये स्वती हदाशार्हस्तप्ता स्वकृतया शुचा सञ्जीवयन् नू नो तस्मात् कृष्णैः प्राप्तराज्यो हताहितः नरेन्द्रकन्या उद्वाह्य प्रीत सर्वसृहृद्भृतः किमस्माभिर्वनौ कोभिरन्याभिर्वा महात्मनः ते पते राब्दकामस्य क्रियेतार्थकृतात्मनः परम् सौक्षम् हि नैराश्यम् सैरिण्यप्याः पिङ्गला तज्जानती नाम् न कृष्णे तु साभ्यासा दुरत्यया युसहेतसन्त्यक्तम् तत्सन्त्यक्तुम् उत्तमश्लोकसंविदम् अणिच्छतोऽपि यस्य श्रीरङ्गान्न च वते तरच्छिन्दरिच्छैलवनोद्देशा गावो वेणुरवाय्मे शङ्कर्षणसहायेन कृष्णो नाचरिता प्रभो पुनः पुसम् पुनः स्मारयन्ति नन्दगोपसुतम्बत ते निकेतैतत्पदम् कैर्विस्मर्तुम् नैव शक्नुम यद्जालियोदार हासलीलावलोकनै भ्या गिरासितदिय कथं तं विस्मरामहे ते नाथ हे रमानाथ व्रजनाथानाथमग्नमुद्धर गोविन्द गोकुलं व्रजनाण्वा ते सुकुवाच ततस्ता कृष्णसन्देशैर्यपेत बिरहज्वरा उद्धवं पूजयाश्चक्रुर्यात्वात्मान मथोक्षरम् वासकृतिचिन्मासान् गोपीनामृदच्छ्रुत कृष्णलीलाकथां गायन्द्रमि यामास गोकुलम् यावन्त्यहानिनन्दस्य व्रजो मं दजेवासी स उद्धव व्रजौ कसां थप्रायाण्यासन् कृष्णस्य वार्तया सरिद्वन गिरिद्रोणे वीक्षन् कृष्णं संस्मारयन् रे मे हरिदासो व्रजौ कषाम् जिष्वैव मादिगोपीनां कृष्णावेशात्मविक्लुवम् उद्धव परम् प्रीतस्तानमस्य निदम् जगौ एता परं तनुमृतो भुवि गोपवध्वो गोविन्द एव दां शान्ति यद्भवभियो मुनियो वयं च कृं ब्रह्मजन्मभिरनन्तकन्था रसस्य क्वे मासि यो वनचरेभ्यविचारदुष्टा कृष्णे क्वचैश्च परमात्मनिरूढभाव नन्मेश्वरोऽनुभजतो विदुषोऽपि साक्षात् श्रेयस्तनोत्यगदां जगराजयोपयोक्ता नायं सि योऽङ्गवून्दितान्तरते प्रसाद स्वर्योषितां नलिनगन्धरुचां कुतोन्याम् रसोत्सवेस्य भुजदण्डगृहीतकण्ठ दब्धाशिसां जद्गाद्रजवल्लवीनाम् आसामहोचरणरेणुजशामहंशाम् वृन्दावने किमपि गुल्मलतौषधीनाम् यादुस्तजं सजनमार्यपथं त हेत्वा भेजुर्मुकुन्दपदवीं तृभे विज्ञानैष याचितमजातिभिराप्तकामै योगेश्वरैरपि यदात्मनिरासगोषां कृष्णस्य तद्भगवतश्चरणारविन्दं नस्तं तनेषु विजुः परिरभ्यतापम् वन्दे नन्दव्रजस्त्रीणाम् पादरेणुबमिक्ष्णस यासां हरिकथोद्गीतम् पुनातिभुवनत्रयम् शेषोकुवाच अथ गोपीरनुज्ञाप्य यशोदाम् नन्दमेव च गोपानाम् अन्त्यदासार्हो यास्यर्नारुहेरथम् तम् निर्गतम् समासाद्य नालोपायन पालय नन्दादयोनुरागेण प्रावोचन्न श्लोचनाः ननसो वृद्धयो नस्यो कृष्णपादाम्बुजाश्रया दाचोऽभिधां जिनीनाम्न्याम् काय तद्ब्रह्मणादिषु कर्मभिर्भ्राम्यमाणानाम् यत्र क्वापीश्वरेच्छया मङ्गलाचलितैर्नैरतिर्न कृष्णेश्वरे एवं सभाजितो गोपै कृष्णभक्त्या राधिप उद्धव पुनरागच्छन् मथुरां कृष्णपालितां कृष्णाय प्रणिपत्याह भक्त्युद्रेकं रजौ कषां वसुदेवाय रामाय राज्ञे चोपायनान्यदा देशी मद्भागुते महाबुराणे पारं जां चैतायां दशं स्कन्दे पूर्वार्धे